अग्निगायत्रीमन्त्रम् अग्नेयं यज्ञमध्वरं घनं केन् बी चाण्ड् डैरी अट् एनि टैम् अग्नेय यज्ञमध्वरविश्वदः परिभूरसि स येषु गच्छति सोमयास्ते मयोभुव ऊदयसन्ति दाशुषे ए भिर्नो विदा भव अग्निर्मूर्धा भुवः त्वन्नः सोमया ते धामानि तत्स वितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयाद अजिति यच्चकृमा द्ये जने दीनैर्दक्ष य प्रभोति पूरुषत्वता कनम् अग्ने यैयमग्नेग्ने यज्ञै यज्ञैयमग्नेग्ने यज्ञम् यै यज्ञै यै यै यज्ञमध्वरं यज्ञमध्वर मध्वरै यज्ञै यज्ञमध्वरौ विश्वदो विश्वदो अध्वरै यज्ञै यज्ञमध्वरौ विश्वतः अध्वरं विश्वदो विश्वदो अध्वर मध्वर विश्वद परिभू परिभोर्विश्वदो अध्वरमध्वर विश्वदः परिभुः विश्वतः परिभुः परिभोरस्यसि परिभोर्विश्व परिभोरसि परिभोरिधि परिभोः असीत्यसि स युदित् स यिद्देवेषु देवेष्वित् यद् देवेषु देवेष्वि दि देवेषु गच्छति गच्छति देवेष्विेषु गच्छति देवेषु गच्छति देवेषु देवेषु गच्छति गच्छति दि सोमया सोम सोमयास्ते ते या यास्ते ए यास्ते ते यायास्ते मयो भुवो मयो भुवस्ते यायास्ते मयो भुवः ते मयो मयो भुव ऊदय ऊदयो मयो भुव स्ते दे मयो भुव ऊदयः मयो भुव भुवो मयो भुव ऊदय सन्धि मयो भुवो मयो भुव ऊदय मयो भुव इति मयः भुवः ओदय सन्धि सन्ध्योदय ओदय सन्धि दाशुषे दाशुषे सन्ध्योदय ऊदय सन्धि दाशुषे ए सन्धि दाशुषे सन्धि दाशुषे दाशुष इति दाशुषे ताभिर्नो नस्ताभिष्टाभिर्नो विदा विता नस्ताभिष्टाभिर्नो विता नो विता वि ता नो नो विता अविता भव विता विदा भव भवेदि भव अग्निर्मूर्धा मूर्धाग्निरग्निर्मूर्धा भुवो भुव मूर्धाग्निरग्निर्मूर्धा भुवः मूर्धा भुवो भुवो मूर्धा मूर्धा भुवः भुव यदि भुवः त्वन्नो नस्त्वन् त्वन्नः सोम सोम नस्त्वन् न सोम सोम नो नः सोमया या सोम नो नः सोमया सोमया या सोम सोमयादे ते या सोम सोमयादे यादे ते या ते धामानि धामानि ते ते धामानि धामानीति धामानि तत्स विदो सवितुस्तत्तत् सविदुर्वरेण्यवरेण्यगुं सवितुस्तत्तत् सवितोर्वरेण्यम् सवितोर् वरेण्यं वरेण्यगं सवितु सवितुर् वरेण्यं भर्गो भर्गो वरेण्यगुं सवितुः सवितो वरेण्यं भर्गः वरेण्यं भर्गो भर्गो वरेण्यं वरेण्यं भर्गो देवस्य देवस्य भर्गो वरेण्यं वरेण्यं भर्गो देवस्य भर्गो देवस्य देवस्य भर्गो भर्गो देवस्य धीमहि धीमहि देवस्य भर्गो भर्गो देवस्य धीमहि देवस्य धीमहि धीमहि देवस्य देवस्य धीमहि धीमहिति धीमहि धियो यो यो धियो धियो यो नो नो यो धियो धियो यो नः यो नो नो यो यो न प्रचोदयाद प्रचोदयान यो यो न प्रचोदयाद न प्रचोदयाद प्रचोदया अजेत्ति यद्य चेत्यजेत्ति यच्चक्रमचक्रम यदचेत्यजेत्ति यच्चकृमा यच्चक्रमचक्रम यद्यच्च कृमा द्ये दैवे चक्रम यद्यच्च कृमा द्ये चक्र मा दैव्ये दैव्ये चक्र मचक्र जने जने दैव्ये चक्र मचक्र मा जने ए दैव्ये जने जने दैव्ये दैव्ये जने दीनायर् दीनायर्जने दै दै जने दीनैः जने दीनायर् दीनायर्जने जने दीनाय दक्षायर् दक्षायैर् दीनायर्जने जने दीनायर्दक्षैः दीनायर्दक्षायर्दक्षायैर् दीनायर्दीनायर्दक्षाय प्रभोदि प्रभूति दक्षैर् दीनायर् दीनायर्दक्षायि प्रभूति दक्षाय प्रभोदि प्रभोदि दक्षायैर्दक्षाय प्रभोदि पुरुषत्वदा पुरुषत्वदा प्रभोदि दक्षय दक्षय प्रभोदि पुरुषत्वदा प्रभोदि पुरुषत्वदा पुरुषत्वदा प्रभोदी, दक्षयर, प्रभोदी। पुरुषत्वदा प्र... प्र... प्रभोतिदिप्रभूति पुरुषत्वतेदि पुरुष